ब्रह्माण्डपुराणं मध्यभागम् अध्यायम् 72 टु स्तवसमाप्ति सूत उवाच मनुष्यप्रकृतीन् देवान् कीर्त्यमानान्निबोधत सङ्घर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्तिताः सप्तर्ष्यकुबेरश्च यज्ञे मणिवरस्तथा शालूकिर्नरदश्चैव विद्वान् धन्वन्तरिस्तथा नन्दिनश्च महादेवः सालकायन एव च आदिदेवस्तथा विष्णुरेभिश्च सह ऋषय ऊचुः विष्णुः किमर्थं संभूद स्मृता सम्भोदय कति भविष्या कदि चान्ये भावा प्रादुर्भावा महात्मनः ब्रह्मक्षत्रेषु शस्त्रेषु किमर्थमिह जायते पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छता विस्तरेणैव सर्वाणि कर्माणि रिपुकादिनः श्रोतुमिच्छामहे सम्यग्वद कृष्णस्य धीमतः च प्रादुर्भावाश्च प्रभो या वास्य प्रकृतिस्ताद तां चास्मान्वक्तुमर्हसि कथं स भगवान् विष्णुः सुरेश्वरि निषूदनः वसुदेवकुले धीमन्वासुदेवत्वमागदः अमरैरावृतं पुण्यं पुण्यकृद्विरलङ्कृतं बुन्या देवलोकं किमुत्सृज्य मर्त्यलोकमिहागदः देवमानुषयोर्नेधा धाधुर्यप्रसवो हरिः किमर्थं दिव्यमात्मानं मानुष्ये मानुष्येत्समवेशयत यश्चक्रं वर्तयत्येगो मनुष्याणां मनोमयं मानुष्ये सकथं बुद्धिं चक्रे चक्रभृदाम्बरः गोपायन ह्य कुरुते जगदस् सर्वकालिकं सकथं गां गदो विष्णोर्गोपत्वमकरोत्प्रभुः महाभूदानि भूदात्मा यो दधारचकारः श्रीगर्भस्सकथं गर्भे स्त्रिया भूचरयावृतः येन लोकान् क्रमयुर्जित्वा सश्रीकास त्रिदशाकृताः स्थापिता जगदो मार्गास्त्रिक्रमं वपुराकृतं ददौ वसुमदीं सुराणां सुरसत्तमः येन सैंहं बभुकृत्वा द्विधा च तत्पुनः पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः यः पुरा ह्यनलो भूत्वा त्वौर्वः विभुः पादालस्तोर्नवगद्धः पपौ तोयमयं हविः सहस्रचरणं देवं सहस्रांशुं सहस्रशः सहस्रशिरसं देवं यमाहुर्वै युगे युगे नाभरण्यां समुद्बोधं यस्य पैदामहं गृहं ये कार्णवगदे लोके निगदा दैत्यासङ्ग्रामे तारकामये सर्वदेवमयं कृत्वा सर्वायुधरं बभुः महाबलेन वोत्सि कालने मिर्निपातितः समुद्रस्य क्षीरो दस्यामृदो दधेः यस्येदे शश्वतं योगमाच्छाद्यतिमिरं महद सुरारणि गर्भमधत्त दिव्यं तपःप्रहर्षा दधिति पुरायम् चक्रं च यो दैत्यगणं च रूद्धं गर्भावमानेन भृष्यं चकारः पदानियो यो लोकपदानि कृत्वा चकारदैत्यान् सलिलेशयां तान् कृत्वा च देवां स्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूदमेव गार्हपत्येन विधिना अन्वाहार्येण कर्मणा अग्निमाहवनीयं च वेदीं चैव कुशं स्रुवं प्रोक्षणीयं श्रुतं चैव आवभृत्यं तथैव च अधर्षींश्चैव यश्चक्रे हव्यभागप्रदान्मके हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितृनपि भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि यूपान् समिस्रुवं सोमं पवित्रं परिधीनपि यज्ञियानि च द्रव्याणि यज्ञियांश्च तथा नलान् सदस्यान्यजमानांश्च ह्यश्वमेधान् कृदुत्तमान् विजित्रान् राजसूयदीन् पारमेष्ट्येन कर्मणा उद्घात्रादींश्च यकृत्वा यज्ञां्लोकाननुक्रमं क्षणान्निमेषा काष्ठाश्च कलास्त्रैकाल्यमेव च मुहूर्तास्तिथयोमासा दिनं संवत्सरं तथा ऋधवकालयोगाश्च प्रमाणम् त्रिविधम् त्रिषु आयुः क्षेत्राण्यथ बलं क्षणं यद्रूपसौष्ठवम् मेधावित्वम् च शौर्यम् च शास्त्रस्येव च पारणं त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः त्रैकाल्यं त्रीणि कर्माणि तिस्रो मात्रा गुणास्त्रयः सृष्टा लोकेश्वराश्चैव येन येन च कर्मणा सर्वभूतगणाः सृष्टाः सर्वभूत गणात्मना क्षणं संधाय पूर्वेण योगेन रमते च यः गदा गदानां यो नेदा सर्वत्र पिविधेश्वरः योगदेर्धर्मयुक्तानामगधिः पापकर्मणाम् चादुर्ण्य प्रभवच्चुर्वर्ण्य रक्षिता चादुर्विद्य यो वेत्ता चादुराशम्य संश्रय दिगंधरम नभो भूमिराभ वायुर्विभासु चंद्र सूर्यद्योतिगेश श्रूयदे देवो यः परं श्रूयदे तपः यः परं तमसः प्राहुर्यः पदं परमात्मवान् आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः सेदुर्यो लोकसेदूनां मेधो यो मध्यकर्मणां वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनां सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् मनुष्याणां मनुर्भूतस्तपोभूतस्तपस्विनां विनयो नयतृप्तानाम् तेजस्तेजस्विनामपि विग्रहो विग्रहाणां यो गतिर्गदिमदामपि आकाशप्रभवो वायुर्वायुप्राणो हुदाशनः देवा हुदाशनप्राणाः प्राणोऽग्नेर्मधुसूदनः रसाच्योदूदेशोनिदच्य मेधसो जन्म मेधसोस्तिच्यते अस््यो मज्जा भवन्म्जा दशुक्रसंभव शुक्रा गर्भ सवद्रसमूल न कर्मण तत्रापां प्रथमावाप स सौम्यो राशिरुच्यते गर्भोष्म सम्भवो द्वितीयो राशिरुच्यते शुक्रं सोमात्मकं विद्यादार्तवं पावकात्मकं भावौ रसानुभावेदौ वीर्ये च शशिपावकौ कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितं कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितं देहस्य मध्ये हृदयं स्थानं तु मनःसस्मृतं नाभिश्चोदरसंस्तादु तत्र देवो हुदासनः मनःप्रजापतिर् नेह्य विभाव्यदे पित्तमग्निस्मृदोष्येतदग्नि सोमात्मगं जगद एवं प्रवर्तिदे गर्भे वृत्ते कर्कन्धुसन्निभे वायुःप्रवेशनं चक्रे सङ्गतः परमात्मना स पञ्चधा शरीरस्थो विद्यते वर्धयेत्पुनः प्राणापानौ समानश्च ह्युदानो व्यान एव च प्राणोऽस्य परमात्मानं वर्धयन् परिवर्तते अपानःपश्चिमं कायमुदानोऽर्धं शरीरिणः व्यानो देयेन व्यानों नेसन्धिषु भूदा व्यातिदस्त जायतेद्रियोचरा पृथिवी वायुराकाश मोज्योति पंचम सर्वेद्रियन्निविष्टास्ते स्वस्वयोगं प्रचक्रिरे पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतं छिद्राण्याकाशयोनि जलाश्रावः प्रवर्तते ज्योतिश्चक्षुषि कोष्ठोऽस्मात् यन्नामतस्मृतं सङ्ग्राह्य विषयांश्चैव यस्य वीर्यात् प्रवर्तिताः इत्येतान् पुरुषः सर्वान् नै धनेस्मिन् कथं लोके नरत्वं विष्णुरागदः येष नः संशयो धीमन्येष वै विस्मयो महान् कथं गतिर्गतिमदा मा भन्नो मानुषीं तनुं श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम् आश्चर्यं परमं विष्णोर्वेदैर्देवैश्च कथ्यते विष्णो विष्णोरुत्पत्तिमाश्चयकथयस्वमहामते एतदाश्चर्यमाख्यादं कथ्यदां वै सुखावहं प्रख्यातबलवीर्यस्य प्रादुर्भावन्महात्मनः कर्मणाश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यते सूत उवाच अहं वक्कीर्तयिष्यामि प्रादुर्भावं महात्मनः यथा बभूव भगवान् मानुषेषु महातपः भृगुस्त्रीवधदोषेण भृगुशापेन मानुषे जायते च चुगा सिद्धिव्यां विष्णर्गद मे निबोधत युगधे कालेथिले प्रभु कर्त जायते। मानुषेष्विह भृगो शापनिमित्तेन देवासुरकृतेन च ऋषय ऊचुः कथं देवासुरकृते तद्व्याहारमवाप्तवान् ये दद्वेदितुमिच्छामो वृत्तं देवासुरं कथं सुद उवाच देवासुरं यदावृत्तं वृत्तं ब्रुवतस्तन्निबोधत हिरण्यकश्यपुर्दैत्यस्त्रैलोक्यं प्राक् प्रशास्य बलिनाधिष्ठितं राज्यं पुनर्लोकत्रये क्रमाद सख्यमासीत् तेषां देवानामसुरैः युगाख्या दशसम्पूर्णा ह्यासीदव्याहदं जगद निदेशस्थायिनश्चैव तयोर्देवासुरा भवन् बद्धे बलौ विवातो सम्प्रवृत्तसुदारुणः देवासुराणां च तदा घोरः क्षयकरो महान् तेषां द्वीपनिमित्तं वै सङ्ग्रामा बहवो भवेन् वराहेस्मिन् दशद्वौ चण्डामर्कान्दगा स्मृदाः नामतस्तु समासेन शृणुध्वं तान्विवक्षतः प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः तृतीयसदुवाराहश्चतुर्धो मृतमन्थनः सङ्ग्रामः पञ्चमश्चैव सुखोरस्तारकामयः षष्टो ह्याडीभगस्तेषां सप्तमस्त्रैपुरस्मृतः अन्धकारोष्टमस्तेष्यां ध्वजश्च नवमस्मृतः वार्त्रश्च दशमोऽघोरस्तदो हालाहलस्मृतः हा। स्मृतो द्वादशकस्तेषां खोरः कोलाहलोपरः हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे कृते हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे च दैवते महाबलो महासत्त्वत्सङ्ग्रामेष्वपराजितः दंष्ट्रयादु वराहेण स प्रह्लादो निर्जितो युद्धे इन्द्रेणामृदमन्थने विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोऽद्यतः इन्द्रेणैव स विक्रम्य निहतस्तारकामये भवादवध्यतं प्राप्य विशेषशास्त्रादिभिस्तु यः स जम्भो निषदषष्ठे शक्राविष्ठेन विष्णुना अशक्नुवत्सु देवेषु परं सोढुमदैवतं निषदा दानवा सर्वे त्रिपुरे त्र्यम्बकेण तु अध दैत्याः सुराश्चैव त्वन्धकारिके जिता देवमनुष्येस्थे पितृभिश्चैव सङ्गताः स वृत्रान् दानवांश्चैव सङ्गतान् कृष्णशच्छतान् जघ्ने विष्णुसहायेन महेन्द्रस्तेन वर्धितः अधो ध्वजे महेन्द्रेण मयाश्चत्रश्च योगवित् ध्वजलक्षं समाविश्य विप्रचित्तिर्महानुजः दैत्यांश्च दानवांश्चैव संहतान् कृष्णशश्च तान् जयद्धालाहले सर्वैर्देवैः परिवृतो वृषा रजिकोलाहले सर्वान् दैत्यान् परिवृतो जयद यत्नस्यावभृद्धे जित्वा षण्डामकारयितु दैवतैः ये दे देवासुरावृत्तासङ्ग्रामाद्वादशैवतु सुरासुरक्षयकराः प्रजानां शिवश्चः हिण्यकशिपूराज वर्षाणुदंब तथा शतसहस्रण्य दिवसोक्यवदर्ेण राजर्षाबुद्पुन राज्याधिकारस्तु षिश्च्रण्त्रिश्चुता बलैराज्यास्तु यलूव प्रहलादो निर्जिदूच तवत्ल सहसुर इंद्रास्त्रयेख्या ह्यसुरा महौजस दैत्यसंस्तमिदं सर्वमासीद् दशयुगं किल अशपत्तु तदशुक्रो राष्ट्रं दशयुगं पुनः त्रैलोक्यमिदमव्यघ्रं महेन्द्रो ह्यभ्ययाद्बलेः प्रह्लादस्य हृदे तस्मिन् त्रैलोक्ये कालपर्ययाद पर्यायेणैव सम्प्राप्तं त्रैलोक्यं पाकशासनं तदोऽसुरान् परित्यज्य यज्ञो देवानुपागमद यज्ञे देवानथगधे काव्यं ते श्यसुराम्ब्रुवन् किं तन्नो मिषदां राष्ट्रं त्यक्त्वा यज्ञसुरान् गदः स्थातुं न शक्रुमोह्यद्य प्रविशाम रसातलं येवमुक्तो ब्रवीदेदान्विषन्नः सान्त्वयन् गिरा मा भैष्ट तेजसास्वेन स्वेन वः सुराः वृष्टिरोषधयश्चैव रसा वस्तु यत्परं कृत्स्नानि पापस्तेषां सुरेषु वै युष्मदर्थं प्रदास्यामि तत्सर्वधार्यते मया तदो देवासुरान् दृष्ट्वा धृतान् काव्येन धीमदा अमन्त्रयंस्तदा ते वै संविघ्ना विजिगीषया एष काव्य इदं सर्वं व्यावर्तयदि नो बलात् साधु गच्छामहेतूर्णं यावन्नाप्याययेतु तान् प्रसह्य हत्वा शिष्ठांस्तु पादालं महे। तदो देवास्तु दानवान दानवानभिसृत्य वै जघ्नुस्तैर्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः तथ काव्यस्तु तान् दृष्ट्वा तूर्णम् देवैरभिद्रुतान् समारक्षद सत्रस्तान् देवेभ्यस्तान् दिदे काव्यो दृष्ट्वा स्थितान्देवांस्तत्र दैवमचिन्तयद तानुवाच तदो ध्यात्वा पूर्ववृत्तमनुस्मरन् त्रैलोक्यं विजिदं सर्वं वामनेन त्रिभिक्रमैः बलिर्बद्धोऽहतो जम्भो निहतश्च विरोचनः महासुराद्वादशसु सङ्ग्रामेषु सुरैर्हदाः तैस्तैरुपाहैर्भूयिष्ठा निखताये प्रधानतः किञ्चिच्छिष्टास्तु वै योऽयं युग्धे स्वल्पे तु वै स्वयं नीदिम्बो हि विधास्यामि कालः यस्याम्यहं महादेवं मन्द्रार्थे विजयाय अग्नि अग्निमाप्या येद्धोदा मेत्रैरेष दहिष्यति ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितं युष्माननु ग्रहीष्यामि पुनः पश्चाद्दिहा यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने न वै देवा वाधिष्यन्ति यावदागमनं मम अप्रदीपांस्तदो मन्त्रान् देवात् प्राप्य महेश्वरात् योत्स्यामहे पुनर्देवांस्ततः प्राप्यथ वै जयं हृदसंवादा देवानूचुस्तदो सुराः न्यस्तशस्त्रा वयं सर्वे लोकान्यूयं क्रमन्तु वै वयं तपश्चरिष्यामसंवृत्ता वल्कलैर्वने प्रह्लादस्य वच श्रुत्वा सत्यानुव्याहृदं तु तद तदो विज्वरा मुदिताश्च न्यस्तशस्त्रेषु दैत्येषु स्वान् वै जग्मु यथा गदान् तदस्तानब्रवीत्काव्यक् कञ्चित्कालं प्रतीक्षतां निरुत्सुकास् तपोयुक्ता कालकार्यार्थसाधकः पितुर्ममाश्रमस्था वै सम्प्रदीक्षददानवाः सन्दिश्य सुरान् काव्यो महोदेवं प्रपद्य च प्रणम्यैवमुवाचायं जगत्प्रभवमीश्वरम् मन्त्राणिच्छामि हे देव येन सन्ति बृहस्पतौ पराभवाय देवानामसुरेष्वभयावहान् एवमुक्तो ब्रवी देवो मन्त्रा नेच्छसि वै द्विज व्रतं ब्रह्मचारी समाहितः पूर्वम् वर्षसहस्रं वै कुण्ठधूममवाप्सिराः यदि मत्तो मन्त्रमवाप्स्यसि तथोक्तो देवदेवेन स पादौ संस्पृश्य देवस्य व्रतं चराम्यहं देव यथोद्दिष्टोऽस्मि वै प्रभो ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत असुराणां हिदार्थाय तस्मिञ्चुक्रे गदे तदा मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे तद्बुद्ध्वा नीतिपूर्वं तु राष्ट्रं न्यस्तं तदा सुरैः तस्मिं च्छिद्रे तदा मर्षाद्देवास्तान् समभिद्रवन् प्रगृहीतायुधात् सर्वे बृहस्पतिपुरोगमाः दृष्ट्वा सुरगणादेवान् प्रगृहीतायुधान् पुनः उत्पेदुस्सहसा सर्वे सन्त्रस्तास्ते तदो भवन्यस्ते शस्त्रे भये दत्ते ह्याचार्ये व्रतमास्ति संत्यज्य समयं देवास्ते सपत्नजिखांसवः अनाचार्यस्तु भद्रम्भो विश्वस्तास्तपसे स्थितः चिरवल्कार्जिनधरा निष्क्रिया निष्परिग्रहा रणे विषेदुं देवान्वै न शक्ष्यामः कथञ्चन आयुद्धेन प्रपद्यामः शरणं काव्यमातरं प्रापद्यन्त ततो भीतास्तया चैव तदा भयं दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम् तया चाभ्युपपन्नांस्तान् दृष्ट्वा देवास्तदा अभिजघ्नप्रसह्यैतान्विचार्य च चा बलाबलम् तदस्तान्वध्यमानांस्तु देवैर्दृष्ट्वा सुरांस्तदा देवी क्रुद्धा ब्रवीदेनाननिन्द्रत्वं करोम्यहम् संस्तभ्यशीघ्रं संरम्भादिन्द्रं साभ्यचरत्तदः तदसंस्तंभिदं दृष्ट्वा शक्रं देवास्तु मूढवत् व्यद्रवन्दतदोभिदा हृष्ट्वा शक्रं वशीकृतं गदेषु सुरसङ्गेषु विष्णुरिन्द्रमभाषद मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वरः एवमुक्तस्ततो विष्णुः प्रविवेश पुरन्तरः विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचो वदद येषां त्वां विष्णुना सार्ध दहामि मखवन् बलाद मिषदा सर्वभूतानां दृश्यतां मे तपोबलं तयाभिभूतौ तौ देवाविन्द्राविष्णो जजल्पतुः कदं मुच्येव सखितौ विष्णुरिन्द्रमभाषद इन्द्रो ब्रवीजहिह्येनां यावन्नो न दहेद्विभो विशेषेणाभिभूतोऽहमिमां तज्जहिमाचिरं ततः समीक्ष्यतां विष्णुस्त्रीवधं कर्तुमास्थिदः अभी्रप सर प्रभु तस् संर मण या शीघ्रकारी मुिध विष्णस्तो देव क्रूरम बुद्ध्वा चिकीर्षि क्रुदस्तस्त्र शिरचिच्छेद माधवः तं दृष्ट्वा स्त्रीवधं घोरं चुकोपभृगुरीश्वरः ततोऽभिशप्तो भृगुणा विष्णोर्भार्या वधे तदा यस्मात्ते जानदा धर्ममवध्या स्त्रीनिषूदिदा तस्मात्त्वं सप्त कृत्वो वै मनुष्येषु प्रबध्यसे नष्टे धर्मे पुनः सर्वलोक सर्वलोकहितार्थाय जायदे मानुषेष्विह अनुव्याकृत्य विस्मुंस तदादाय शिरस्वयं समानीय तथक्काये समायोज्येदमब्रवीद यदां त्वां विष्णुना सत्यं हदां सञ्चीवयाम्यहं यदि कृत्णो मया धर्मश्चरितो ज्ञायतेऽपि वा तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् सत्याभिव्यहृदा तस्य देवी संजीविता तदा तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेदि सोऽब्रवीद तदस्तां सर्वभूतानां दृष्ट्वा सुप्तोद्धिदामिव साधु वाचस्तास स्वनुर्दिशः दृष्ट्वा सं जीवितामेवं देवीं भृगुणा तदा मिषदां सर्वभूतानां तदद्भुतमिवाभवद असम्भ्रान्तेन भृगुणा पत्नी सं जीवितां तदः दृष्ट्वा शक्रो न लेभेऽथ प्रजाकरे ततश्चेन्द्रो जयन्तीमात्मनः सुतां प्रोवाचमधिमान्वाक्यं स्वां कन्यां पाकशासनः यश काव्यो ह्यनिन्द्राय चरदे तेनाहं व्याकुलपुत्रि कृतो धृतिमना दृढं गच्छ सम्भावयस्वैनं श्रमापनयनैः शुभे तैस्तैर्मनोऽनुकूलैश्च्युपचारैरतन्द्रिता देवी सारीन्द्रदुहिता जयन्तीशुभचारिणी सुस्वरूपधरागात्तं दुर्वकं प्रथमास्तिदं पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा गीर्भिश्चैवानुकूलाभिस्तुवन्दी वल्गुभाषिणी गात्रसंवाहनैकाले सेवमाना त्वचा सुखैः शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः पूर्णं धूमव्रते चापि होरे वर्षसहस्रके वरेण चन्दयामासकाव्यं प्रीतो भवस्तदा एवं व्रतं त्वयिकेन चीर्णं नान्येन केनचिद् तस्मात् त्वं तपसा बुद्ध्याश्रुतेन च बलेन च तेजसा वापि विबुधान् सर्वानभिभविष्यसि यच्च किञ्चिन्मम ब्रह्म विद्यते भृगुनन्दनसाङ्क च सरहस्यं च यज्ञोपनिषदस्तथा प्रतिपादिते सर्वं तद्वाच्यं तु न कस्यचिद सर्वाभिभावितेन द्विजश्रेष्ठो भविष्यसि एवं दत्त्वा वरं तस्यै भार्गवाय भवः प्रजेशत्वं प्रदेशत्वं धनेशत्वमवध्यत्वं च वै ददौ येदाल्लब्ध्वा वरान्काव्यसम्प्रहृष्ट तनूरुहः हर्षात्प्रादुर्बभौ तस्य दिव्यं स्तोत्रं महेशितुः तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितं नमोस्तु शितिकण्ठाय सुराद्याय सुवर्चसे वेनिहानाय ले लेह्याय वत्सराय जगत्पदे कपर्दिनो ह्यूर्ध्वरोम्णे हर्यक्ष वरदाय च संस्तुताय सुदीर्थाय देवदेवाय रंहसे उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीठुषे वसुरेदाय रुद्राय तपसे चिरवाससे निस्वाय मुक्दकेशाय सेनान्ये रोहिताय च कवये राजवृद्धाय तक्षकक्रीडनाय च गिरीशायार्कनेत्राय यदये चाजपाय च चा, सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च सहस्रबाहवे चैव सहस्रामलचक्षुषे सहस्रकुक्षये चैव सहस्रचरणाय च सहस्रशिरसे चैव बहुरूपाय वेधसे भवाय विश्वरूपाय स्वेदाय पुरुषाय च निषङ्गिणे सूक्ष्माय क्षपणाय च ताम्राय चैव उग्राय च शिवाय च महादेवाय सर्वाय विश्वरूप शिवाय च हिरण्याय वसिष्ठाय वर्षाय मध्यमाय च दाम्ने चैव पिशङ्गाय पिङ्गलाय अरुणाय च पिनाकिने चेशुमदे चित्राय रोहिताय च दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा मृगव्याधाय सर्वाय स्थाणवे भीषणाय च बहुरूपाय चोग्राय त्रिनेत्रायैश्वराय च कपिलो यैकवीराय मृत्यवेत्र्यम्बकाय च वास्तोष्पदे पिनाकाय शङ्कराय शिवाय च आरण्याय गृहस्थाय यदिने ब्रह्मचारिणे साङ्ख्याय चैव योगाय ध्यानिने दीक्षिताय च अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च रोधसे चैकितानाय ब्रह्मिष्ठाय महार्षये चतुष् पादाय मेध्याय कर्मिश्रगाय शिखंडिने कपालाय दंडिने विश्वधे अप्रतीताय दीप्ताय भास्कर सुमेधस क्रूराय विकृताय भीभत्साय शिवाय च शुचये परिधानाय सद्यो जाताय मृत्यवे पिशिताशाय शर्वाय मेखाय वैद्युताय च दक्षाय च जखन्याय लोकानामीश्वराय च अनामयाय चेद्माय हिरण्यायैकचक्षुषे श्रेष्ठाय वामदेवाय ईशानाय च धीमदे महाकल्पाय दीप्ताय रोदनाय हसाय च दृढधन्विने कवचिने रथिने च वरुधिने भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमदे अमोखाय प्रशान्ताय सदा विप्रियाय च दिग्वासकृतिवासाय भग्नाय नमोऽस्तु ते पशूनां पदये चैव भूतानां पदये नमः प्रभवे ऋग्यजुस्साम्ने स्वाहायै च सुधाय पषट्कारतमायैव तुभ्यं नमः स्रष्टे दात्रे तथा कर्त्रे हर्त्रे चक्षपणाय च भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः वसवे चैव साध्याय रुद्रादित्याश्विनाय च विश्वाय मरुदे चैव तुभ्यं देवात्मने नमः अग्निसोमविधिज्ञाय पशुमन्त्रौषधाय च दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः तपसे चैव सत्यायत्यागाय च शमायच च अहिंसाया धलोभाय सुवेशाय सर्वभूतात् प्रभूताय तुभ्यं योगात्मने नमः पृथिव्यै चान्तरिक्षाय महाशेतृदिवाय च चा, जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः अव्यक्ताय भूदायैवेन्द्रियाय च तन्मात्राय तुभ्यं तत्त्वात्मने नमः नित्याय चाप्यलिङ्गाय सूक्ष्माय चेतराय च शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः नमस् ते त्रिषु लोकेषु स्वरन्देषु भुवादिषु सत्यान्दमहराद्येषु चतुर्षु च नमोऽस्तु नामस्तोत्रे मया ह्यस्मिन् यदसद्व्याकृतं प्रभो मद्भक्त युधिभ्रं मन्य सर्वं तत्क्षन्तुमर्हसि यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्दे मध्यमभागे तृतीय उपोद्धातपादे स्तव समाप्तिर्नामद्विसप्ततितमोऽध्यायः ओ